मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायम्, ट्वेण्टिसिक्स् सप्ततीर्थीवर्णनं श्रीगणेशाय नमः भृश्युण्ड्य उवाच अधुना यानि मायूर्ये कमण्डलु तडेमराः तीर्थानि तेषु मुख्यानि कथयामि समासदः मुख्यम् गणेशकुण्ठाख्यम् तीर्थमेकम् प्रकीर्तितम् सङ्क्षेपतश्चरित्रम् तु कथितम् तस्य देवपाः अतः पञ्चतीर्थानि शृणुध्वं समासदः गणेशं मध्यभागे यद्धनुषाम् द्विशदात्मकम् तत्र क्षेत्राणि तीर्थानि देवा मुनिनरादयः स्नानं कुर्वन्ति सर्वेऽन्ये नित्यमेकं प्रयत्नदः उभयोस्तिरगं प्रोक्तं परं ब्रह्मकमण्डलोः तत्र तत्रस्नानेन गणेशा भवन्ति जन्तवः सदा ततः परं महातीर्थं कापिलं तादृशं मदं कमलासुरनाशाय गणेशः कपिलो भवन् हत्वा सुरं महावीर्यमजेयं शङ्करादिभिः तन्मस्तकं समाश्रित्य मयूरे संस्थितोऽभवद तत्राभिषेकमकरोद्ब्रह्मा मुनिगणान्वितः कपिलाय गणेशस्य सूक्तैर्हर्षसमन्वितः तत्र पञ्चामृतं नाम बभूव किल पूजनाद् च योगेन तत्तीर्थं परमं मदम् स्नानेन कापिलं तत्र ज्ञानं साङ्ख्यात्मकं लभेत कपिलो विष्णुराख्यादो भवत्तत्रैव संस्थितः ततः परं व्यासतीर्थं सर्वाज्ञानविनाशनं तावता मानयोगेन ज्ञातव्यं विबुधैः व्यासेन व्यान त्र देश सुदारुण शतवर्षे गाढ़ वर गणेशर तेन भारतकं धर्मा धर्मर्मयुक्त चकारह शास्त्रं ब्रह्मपदं तच्च तोर्यक्ये महेश्वराः तत्र स्नानेनैव सद्यो जाड्यभावविवर्जितः धर्मधर्मव्यवस्थां स ज्ञात्वा बोधयुधो भवेद् गणेशतीर्था दधदु पूर्वभागे समस्थितं भीमकुण्डं महेशाना भीमेशेन विनिर्मितम् तत्र स्थित्वा तपश्चक्रे भीमेषो गणपस्य च वरदानप्रभावेण भीमासुरं जखानसः भीमेशतीर्थं मुख्यं वै महदैश्वर्यदायकं तत्र स्नानेनैव सद्यस्तावन्मानयुदम्बभौ कदाचि कदाचिदुष्णकाले तज्जलहीनम् बभूवः तीर्थम् तत्रागतो भीमः पाण्डुपुत्रः प्रदापवान् गदा प्रहारेण तेन खादम् तीर्थमनुत्तमम् जलं तत्र स निष्कास्य स्नानम् चक्रेदिभकृदः बलात्मकम् तेन तत्रैश्वर्यम् प्राप्तम् महाद्भुतम् धृतराष्ट्रसुधान् सर्वान् जखानैश्वर्यसंयुधः तदः परमृषीणाम् च तीर्थम् स्वधर्मदायकम् तावन्मानेन तत्रैव तपःसामर्थ्यदायकम् अष्टाशीतिसहस्राणि मुनयो ब्रह्म तत्पराः प्राप्त्यर्थम् ब्राह्मणत्वस्य तपश्चेरुश्च तत्र ते ब्रह्मभूता बभूवस्ते स्थितास्तत्र विशेषतः जीवन्मुक्तस्वभावेन भजल्लम्बो धरम् परम् पञ्चतीर्थीसमाख्यादामराः क्षेत्रे मयूरके पञ्चसु स्नानमात्रेण ब्रह्मभूतो नरो भवत आदौ स्नायात्स गाणेशेभैमे चार्षेत्ततः परं व्यासतीर्थे कापिले च गणेशेन्ते क्रमं चरेत गणेशतीर्थात् पूर्वस्मात् क्षेत्रान्ते तीर्थमुत्तमं षट्त्रिंशत्तु शतान्येव धनुषां पापनाशनं दक्षिणतीरगस्तत्र शिवशक्तिसमन्वितः संस्थिततीर्थमाश्रित्य सर्वार्थानां प्रवर्तकः उत्तरं तीरमाश्रित्य रमया केशवस्थितः सर्वधर्मप्रदातादु क्षेत्रान्ते क्षेत्रधारकः सर्वाघ्नमिधिख्यातं तीर्थं स्नानेन देवपः षष्ठं सर्वत्र विख्यादं, दुःखनाशकरं भवेद गणेशतीर्थका देवाः प्रतीच्यां तीर्थमुत्तमं क्षेत्रान्ते संस्थितं नाम्ना सर्वपुण्यप्रदायकं तीर्थस्योत्तरतीरस्थो भानुः संज्ञासमन्वितः दक्षिणतीरसंस्थौ च परौ प्रकृतिपूरुषौ तत्र स्नानेनैव सद्य पुण्यराशिर्भवेन्नरः यद्य दीक्षेच्छुभं तत्तत् स लभेन्नात्र संशयः सप्तमं तीर्थमुख्यं तु पूर्वे दूरे च सप्ततीर्थेषु यस्नायात् स सर्वं लभेच्छुभम् आदौ गाणे शके स्नायाद्भैमे चार्षे ह्यके पुण्यदेव्या सतीर्थे स कापिले गाणपे पुनः एवं मुख्यानि सप्तैव कथितानि समासदह, श्रवणात् पापनाशं तु कुर्वन्ति पाठनान्नृणाम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्म उद्गले महापुराणे षष्ठे खण्डे विघटचरिते सप्ततीर्थीवर्णनं नाम षड्विंशतितमोऽध्यायः ओ